श्रीहरये नमः अथ चतुर्दशोऽध्यायः राजोवाच मन्दन्तरेषु भगवन् यथा मन्द्वादयस्त् मे यस्मिन् कर्मणि ये ऋषिरुवाच मनवो मनुपुत्राश्च मुनयश्च महीपते इन्द्रासुरगणाश्चैव सर्वे पुरुषसासनाः यज्ञादयो या कथिता पौरुष्यस्तनवो नृपा मन् बाधयो नयन्त्याभिः प्रचोदिताः चतुर्युगान्ते कालेन ग्रस्तान् श्रुतिगणान् यतः तपसा रुषयो पश्यन् यतो धर्मसनातनः ततो धर्मं चतुष्पाधं मानवो हरिणोधिताः युक्ता सञ्चारयन्ति यद्धास् स्वे स्वे काले महीं नृपां पालयन्ति प्रजापालाया वदन्तं विभागसहा यज्ञभागभुजो देव ये, ये च तत्रान्विताश्च तैः इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिता भुञ्जानः पाति लोकां स्त्रीन् कामं लोके प्रवर्षति ज्ञानं च अनुयुगं ब्रूते हरिः सिद्धस्वरूपदृग ऋषिरूपधरः कर्मयोगं योगे सरूपदृग सर्गं प्रजेसरूपेण दस्योन्हन्यात्स्वराढ्वपुः कालरूपेण सर्वेषाम् अभावाय पृथग् गुणः स्तोयमानो जनैरेभैर्मायया नामरूपयां विमोहितात्मभिर्नाना दर्शनैर्न ना च दृश्यते एतत् कल्पविकल्पस्य प्रमाणं परिकीर्तितम् यत्र मन्वन्तराणि आहुश्चतुर्दश पुरा विदघ इति श्रीमद्भागवते महापुराणे अष्टमस्कन्दे चतुर्दशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनातु जय